श्रीमद्भागवत् महापुराणं चतुर्शस्कन्धः अथाष्टादशोऽध्यायः मैत्री उवाच इत्थं प्रथोमभीष्टोयरूषा प्रस्फूरिताधरं पुनराहावनिर्भीता संसभ्यात्मानमात्मनां संयथाभिवो मन्युं निबोध श्रावितं च मे सर्वतः सारमादत्ते यथा मधुकरो बुध अस्मिन् लोके अथवामस्मिन्मुनिभिः सत्त्वदर्शिभिः दृष्टा योगा प्रयुक्ताश्च पुंसां श्रेय प्रसिद्धये ताला तिष्ठति य सम्यग् उपायान् पर्वदर्शितान् अवरश्रद्धयोपेत उपेयान् विन्दते यथाम् ताननाजत्यो विद्वान्नर्थान्नरभ्यते भव स्वयं तस्याप्यभिचरन्त्यर्था आरब्धास्य पुनः पुनः पुरा सृष्टाशु सुगन्धयो ब्रह्मणाया विशाम्पते भुज्यमाना मया दृष्टा सन्धिरजितव्रते अपालितानादिता च भवद्भिर्लोकपालकै चोरीभूतेऽ लोकोऽहं यज्ञार्थे उग्रह अग्रार्थे ग्रहसमोषधे नूनं ताविरुध चीरामयि कालेन भूयसा तत्र योगेन दिष्टेन भवानादातुमर्हति वत्सं कल्पय मे वीरयेनाहं वत्सला तव धोक्षे चीरमयान् कामान् अनुरूपं च दोहनम् दोग्धारं च महाबाहो भूतानां भूतभावनम् अन्नमिप्सितमुर्जस्वन् भगवान् वाञ्छते यदि समां च कुरु मां राजन् देववृष्टं यथा पयः भद्रं ते उपावरते तमे विभो इति प्रियं हितं वाक्यं भुव आदाय वस्त्रं कृत्वा मनुं पाणां ददूहश्च कुलौषधी तथा परे च सर्वत्र सारंसारमादददे बुधाः ततोऽन्ये च यथा कां ददुः पृदुभावितां ऋष्यो दुदुर्देवीम् इन्द्र ये सुदसद्मः वस्त्रं बृहस्पतिं कृत्वा पश्यन् छन्दोमयं शुचि कृत्वा वस्त्रं सुरगणा इन्द्रं शोभ मदुधुहन् हिरण्मयेन पात्रेण विर्यमो जो वनं पयः दयतेया दानवावस्सं प्रह्लादं सुरंसवं विधाया दुदुहुन् क्षीरम् अयपायपात्रे सुरासवम् गन्धर्वाप्सरसो दृक्षन् पात्रे पद्ममे पयः वस्तं विश्वावशुं कृत्वा गान्धर्वं मधुसोभगम् वत्स्येना पितृर्यन्नां कव्यं क्षीरमथोक्षत आमपात्रे महाभागा श्रद्धया साधुदेवताः प्रकल्प्य वत्सं कपिलं श्रद्धा सङ्कल्पनामयीं सिद्धिं नभसि विद्यां च ये च विद्याधरादयः अन्ये च मायिनो मायामन्तर्धानाद्भुतात्मनाम् मृं प्रकल्पवत्सन्ते दुजुहुर्धारणामयीं यक्षरक्षांसि भूतानि पि सा चापि सुताशनाः भूते सवस्सा दुदुहोकपाले च तदासवं तथा यथां तथा हयोदण्डशूकाः सर्पानागासि तक्षकं विधाय वत्सं दुदुहुर्विलपात्रेऽपिषम्पयः पशुवो यवसं क्षीरं वत्सं कृद्वा च गोविषम् अरण्यपात्रे चाधुक्षन् मृगेन्द्रेण च दर्शिणः क्रव्यादाः प्राणिन क्रव्यं दधो स्वेकलेवरे सुपर्णवत्सा विहाश्चरं चाचरमेव च वटवत्सा वनस्पतयपृथग्रसं नयं पयः गिरियोहिंवद्वत्सा नानाधातुं ससानुषो सर्वेष्वमुख्यवत्सेन स्वे स्वे पाते पृथक्वयः सर्वकामदुःघाम् पृथ्वीम् ददुहो पृथिभाविदाम् एवम् पृथत्वादिय पृथ्वीन्मन्नादास्वन्नमात्मनः दोहवत्सादिभेदेन क्षीरभेदम् कुरुद्वः ततो महीपतिप्रीत सर्वकामदुःखाम् पृथो दुहिद्रिद्वे चकारे माम् प्रेम्णा दुहिद्रुवत्सलः चूर्णयं तदनुस्कोट्या गिरिकूटानि राजराट् भूमण्डलमिदं वेण्यप्रायश्चक्रे शमं विभो अथास्मिन् भगवान् वैण्यप्रजानां विद्युदपितां निमासान् कल्पया चक्रे तत्र तत्र यथाहतः ग्रामान् पुरपत्तनानि दुर्गाणि विविधानि घोषान् वृजान् सीविरानाकारान् खेटकर्वटान् प्रातपृथोरिह नैवेशापुरग्रामारिकल्पना यथा सुखं वसन्ति स्म तत्र तत्रा कुतो भयाः ते श्रीमद्भागुते महापुराणे प्रपंसां शैतायां चतुस्वन्धे पृथिवीविजेष्टादशोऽध्यायः